दशाधिकशततमः सर्गः क्रुद्धमाज्ञाय वसिष्ठः प्रत्युवाचः जाबालिरपि जानीते लोकस्यास्य गता गतिम् निवर्तयितु कामस्तु त्वामेतद्वाक्यमब्रवीत् इमाम् लोकसमुत्पत्तिम् लोकनाथ निबोधमे सर्वम् सलिलमेवासीत् तत्र निर्मिता ततः समभवद्ब्रह्मा स्वयम् भूर्दैवतैः सह सवराहस्ततो भूत्वा प्रोज्जहारवसुन्धरा असृज् च जगत् सर्वम् सह पुत्रैः कृतात्मभिः आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः तस्मान्मरीचैः सञ्जज्ञे मरीचैः कश्यपः सुतः विवस्वान् कश्यपाजज्ञे मनुर्वैवस्वतः स्वयम् स तु प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोऽः सुतः यस्येयम् प्रथमम् दत्ता समृद्धा मनो नामही तमिक्ष्वाकुमयोऽध्यायाम् राजानम् विद्धिपूर्वकम् इक्ष्वाकोस्तु सुतः श्रीमान् कुक्षिरित्येव विश्रुतः कुक्षेरथात्मजो वीरोऽपि कुक्षिरुदपद्यत विकोक्षेऽस्तु महातेजा बाणः पुत्रः प्रतापवान् बाणस्य च महाबाहुरनरण्यो महातपाः नानावृष्टिर्बभूवास्मिन्नदुर्भिक्षः सताम् वरे अनरण्ये महाराजे तस्करो वापि कश्चन अनरण्यान्महाराज पृथूराजा बभूवः तस्मात्पृथोर्महातेजास्त्रिशम् कुरुदपद्यत स सत्यवचनाद्वीरः स शरीरो दिवम् गतः त्रिशङ्कोरभवत्सोऽनुर्धुन्धुमारो महायशाः धुन्धुमारान् महातेजा युवनाश्वो व्यजायत युवनाश्वसुत श्रीमान् मान् धाता समपद्यत मान् धातुस्तु महातेजा सुसन्धिरुदपद्यत सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित् यशस्वी ध्रुवसन्धेस्तु भरतो रिपुसूदनः भरतात्तु महाबाहो रसितो नाम जायत यस्यैते प्रतिराजान उदपद्यन्त शत्रवः हैहयास्तालजङ्घाश्च है शूराश्च शशबिन्दवः तांस्तु सर्वान् प्रथिव्योह्य युद्धे राजा प्रवासितः न च शैलवरे रम्ये बभूवाभिरतो मुनिः द्वे भार्ये गर्भिण्यो बभूवतुरिति श्रुतिः तत्र चैकामहाभागा भार्गवम् देववर्चसम् वन्दे पद्मपत्राक्षी पुत्रमुत्तमम् एका गर्भविनाशाय सपत्न्यैगरळम् ददौ भार्गवस्य वनो नाम हिमवन्तमुपाश्रितः तमृशंसाभ्युपागम्यकालिन्दीत्वभ्यवादयत् सतामभ्यवदत्प्रीतो वरे स्वम् पुत्रजन्मनि पुत्रस्ते भविता देवि महात्मा धार्मिकश्च सुभीमश्च वंशकर्तारिसूदनः श्रुत्वा प्रदक्षिणम् कृत्वा मुनिन्तमनुमान्य ततः सा गृहमागम्य पत्नी पुत्रमजायत सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया गरेण सहतेनैव तस्मात् ससगरोऽभवत् स राजा सगरो इष्ट्वा पर्वणि वेगेनत्रासयान इमाः प्रजाः असमञ्जस्तु पुत्रोऽभूत् सगरस्येति जीवन्नेव स पित्रा तु निरस्तः पापकर्मकृत् अंशुमानपि पुत्रोऽभूदसमञ्जस्य वीर्यवान् दिलीपोऽशुमतः पुत्रो दिलीपस्य भगीरथः भगीरथात् ककुत्स्थश्च काकुत्स्थायेन तु स्मृता ककुत्स्थस्य तु पुत्रोऽभो द्रघुर्येण तु राघवाः कल्माषपादः सौदास इत्येवम् प्रथितो भुवि कल्माषपादपुत्रोऽभूच्छङ्खणस्ति न श्रुतम् यस्तु तद्वीर्यमासाद्य सह सैन्योऽव्यनशत् शङ्खणस्य तु पुत्रोऽभूच्छूरः श्रीमान् सुदर्शनः सुदर्शनस्याग्निवर्ण अग्निवर्णस्य शीघ्रगः शीघ्रगस्य मरुः पुत्रो मरोः पुत्रः प्रशुश्रुवः प्रशुश्रुवस्य पुत्रोऽभूदम्बरीषो महामतिः अम्बरीशस्य पुत्रोऽभूर्णहुषः सत्यविक्रमः नहुषस्य च नाभागः पुत्रः परमधार्मिकः अजश्च सुव्रतश्चैव नाभागस्य सुताबुभौ अजस्य चैव धर्मात्मा राजा दशरथः सुतः तस्य ज्येष्ठोऽधिदायादो राम इत्यभिुतः तद्ग्रहाणः स्वकम् राज्यमवेक्षस्व जगन्नृप इक्ष्वापूणाम् हि राजा भवति पूर्वजः पूर्वजेनावरः पुत्रो ज्येष्ठो राजाभिषिच्यते स राघवाणाम् कुलधर्ममात्मनः सनातनम् नाद्य विहन्तुमर्हसि प्रभूतराष्ट्राम् पितृवन्महायशः शे श्रीमद्राणे वाक्य अयोध्या दशाधिकम सर्ग